चाणक्यनीति अध्यायं नयन् मुक्तिमिच्छसि चेत्तादविषयान्विषवत्यज क्षमार्जवदया शौचं सत्यं पीयोषवत् पिब परस्परस्य मर्माणि ये भाषन्ते नराधमाः त एव विलयं यान्ति वल्मीकोदरसर्पवद गन्धः सुवर्णे भलमिक्षुदण्डे नाकरिपुष्पं खलु चन्तनस्य विद्ध्वान् धनाढ्यश्च नृपश्चिरायुः धातुःपुरा कोऽपि बुद्धिदोऽभूत् सर्वौषधीनामृता प्रधाना सर्वेषु सौख्येष प्रधानम् सर्वेन्द्रियाणां नयनं प्रधानं सर्वेषु गात्रेषु शिरः प्रधानं दूतो संचरदिकेन सञ्चरदिखेन वार्ता पूर्वं ना जल्पिदमिदं ना न जल्पिदमिदं न च सङ्गमोऽस्ति व्योम्निस्थितं रविशासिग्रहणं प्रशस्तं जानादि यो द्विजवरः कथं न विद्वान् विद्यार्थी सेवकः पान्धः क्षुधार्तो भयकादरः भाण्डारी प्रदिहारी च सप्त सुप्तान् प्रबोधयेत् अहिं नृपं च शार्दूलं वृद्धं च बालकं तथा परश्वानं च मूर्खं च सप्त सुप्तान्न बोधयेत् अर्धाधीताश्च या वेदास्तथा शूद्रान्नभोजनाः ते द्विज्या किं करिष्यन्ति निर्विशा इव पन्नगाः यस्मिन् नृष्टे भयं नास्ति तुष्टे नैव धनागमः नुग्रहो नास्ति सरुष्ठ किं करिष्यति निर्विशेण विसर्पेण कर्तव्यामहदीपना विषमस्तु न चाप्यस्तु कटाटोपो भयङ्करः प्रसंगेन, प्रादर्दूतप्रसङ्गेन मध्याह्ने स्त्रीप्रसङ्गदः रात्रौ प्रसंगेन, कालो गच्छन्ति धीमताम् स्वहस्तग्रथिता माला चंदनं, स्वहस्तकृष्टचन्दनं लिखितं स्तोत्रं। चक्रस्यापि श्रियं हरेत इक्षु दण्डास्तिला शूद्राः कान्दा हेम च मेदिनी चन्दनं दधिताम्बूलं मर्दनं गुणवर्धनम् दह्यमाना सुतीव्रेण नीचाः परयशोऽग्निना अशक्तास्तत्पदं गन्तुं तदो निन्दां प्रकुर्वते दरिद्रता धीरतया विराजते कुवस्त्रदा विराजते कदन्नता विराजते कुरूपदा विराजते ॐ